अथ त्रयोदशाधिकशततमः सर्गः इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः प्रविवेश पुरीम् लङ्काम् पूज्यमानो निशाचरैः प्रविश्य च पुरीम् लङ्कामनुज्ञाप्य विभीषणम् ततस्तेनाभ्यनुज्ञातो हनूमान् वृक्षवाटिका सम्प्रविश्य यथा न्यायम् सीताया विदितो हरिः ददर्शमृजयाहीनाम् सातङ्काम् रोहिणीमिव वृक्षमूले निरानन्दाम् राक्षसीभिः परीवृता निभृतः प्रणतः प्रह्वः स्वभिगम्याभिवाद्य दृष्ट्वा तमागतम् देवी हनुमन्तम् महाबलम् तूष्णीमास्ततदा दृष्ट्वा स्मृत्वा हृष्टा सौम्यम् तस्या मुखं दृष्ट्वा हनूमान् प्लवगोत्तमः रामस्य वचनम् सर्वमाख्यातुमुपचक्रमे वैदेहि कुशली रामः सह सुग्रीवलक्ष्मणः कुशलम् चाह हा सिद्धार्थो हतशत्रुरमित्रजित् विभीषणसहायेन रामेण हरिभिः सह निहतो रावणो देवि लक्ष्मणेन च वीर्यवान् प्रियमाख्यामिते ते देवि सभाजये तव प्रभावाद्धर्मज्ञे महान् रामेण संयुगे लब्धोऽयम् विजयः सीते स्वस्था भवगतज्वरा रावणश्च हतः चैव वशीकृता मया ह्यलब्धनिद्रेण धृते न तव निर्जये प्रतिज्ञैषापि निस्तीर्णा बद्ध्वा महोदधौ सम्भ्रमश्च कर्तव्यो वर्तम् त्यारावणालये विभीषणविधेयम् हि लङ्कैश्वर्यमिदम् कृतम् तदाश्वसि हि स्वगृहे परिवर्तसे अयम् चाभ्येति सम्भृष्टस्त्वद्दर्शनसमुत्सुकः एवमुक्ता तु सा देवी ततो ततोऽब्रवीद्धरिवरः सीतामप्रति जल्पदी किम् त्वम् चिन्तयसे देवि किञ्च माम्नाभिभाषसे एवमुक्ता हनुमता सीता धर्मपथे स्थिता अब्रवीत्परमप्रीता बाष्पगद्गदया गिरा प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम् नहि पश्यामि सदृशम् चिन्तयन्ती प्लवङ्गमा आख्यानकस्य भवतो दातुम् प्रत्यभिनन्दनम् नहि पश्यामि तत्सौम्य पृथिव्यामपि वानरा सदृशम् यत्प्रियाख्याने तव दत्त्वा भवेत् सुखम् हिरण्यम् वा सुवर्णम् वा रत्नानि विविधानि च राज्यम् वा त्रिषु लोकेषु एतन्मार्हति भाषितम् एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः युक्ते भर्तुर्विजयकाङ्क्षिणी स्निग्धमेवम्विधम् वाक्यम् त्वमेवार्हस्य निन्दिते तवै तद्वचनम् सौम्ये सारवत् स्निग्धमेव च रत्वमुखाद्विविधाच्चापि देवराज्याद्विशिष्यते अर्थतश्च मया प्राप्तादेव राज्यादयो गुणाः हतशत्रुम् विजयिनम् रामम् पश्यामि सुस्थितम् तस्य तद्वचनम् श्रुत्वा मैथिलीजनकात्मजा ततः शुभतरम् वाक्यमुवाच पवनात्मजम् अतिलक्षणसम्पन्नम् माधुर्यगुणभूषणम् बुद्ध्या ह्यष्टाङ्गया युक्तम् त्वमेवार्हसि भाषितुम् श्लाघनीयोऽनिलस्यत्वम् सुतः परमधार्मिकः बलम् शौर्यम् श्रुतम् सत्वं विक्रमो दाक्ष्यमुत्तमम् तेजः क्षमाधृतिस्थैर्यम् धृतिस्थैर्यं न संशयः एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत् प्रगृहीताञ्जलिर्हर्षात् सीता इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे हन्तुमिच्छामि ताः सर्वा याभिस्त्वम् तर्जिता पुरा क्लिश्यन्तीम् पतिदेवान् त्वामशोकमनिकाम् गता घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः इह श्रुता मया देवि विकृताननाः असकृत्परुषैर्वाक्यैर्वदम् चो रावणाज्ञया विकृता विकृताकारा क्रूराः क्रूरकचेक्षणाः इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः राक्षस्योदारुणकथावरमेतत्प्रयच्छ मे मुष्टिभिः पार्ष्णिघातैश्च विशालैश्चैव बाहुभिः जङ्घाजानुप्रहारैश्च दन्तानाम् चैव पीडनैः कर्तन कर्णनाशा केशानाचनता निपंतविकारिणी प्रहारे बहुशात तीव्र रैयास्व तर्जिता पुराु सा हनुमता कृपनादीन वत्सला हनूमन मुचेद चिंत्वा विमृश्य राजसंश्रयवश्यानाम् कुर्वतीनाम् पराज्ञया विधेयानाम् च दासीनाम् कः कुव्येद्वानरोत्तमा भाग्यवैषम्यदोषेण पुरस्ताद्दुष्कृतेन च मयैतत्प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते मैवम् वद महाबाहो दैवी दासीनाम् रावणस्याहम् मर्शयामीह दुर्बला आज्ञप्ता राक्षसेनेह राक्षस्यस्तर्जयन्ति माम् हते तस्मिन्न कुर्वन्ति तर्जनम् मारुतात्मजा अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः ऋक्षेण गीतश्लोकोऽस्ति तन्निबोधप्लवङ्गमा न परः पापमादत्ते परेषाम् पापकर्मणा समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः पापानाम् वा शुभानाम् वा वधार्हाणाम् प्लवङ्गम कार्यम् करुणमार्येण न कश्चिन्नापराध्यति लोकहिंसाविहाराणाम् क्रूराणाम् पापकर्मणाम् कुर्वतामपि पापानि नैव कार्यमशोभनम् एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः प्रत्युवाच ततः सीताम् रामपत्नीमनिन्दिता भवती धर्मपत्नी गुणान्विता प्रतिसन्दिश माम् देवि यत्र राघवः एवमुक्ता हनुमता वैदेही जनकात्मजा सा ब्रवी द्रष्टुमिच्छामि भर्तारम् भक्तवत्सलम् तस्यास्तद्वचनम् श्रुत्वा हनूमान्मारुतात्मजः हर्षयन् मैथिलीम् वाक्यमुवाचेदम् महामतिः पूर्णचन्द्रमुखम् रामम् स्थितमित्रम् हतामित्रम् शचीवेन्द्रम् सुरेश्वरम् तामेवमुक्त्वा भ्राजन्तीम् सीताम् साक्षादिवश्रियम् आजगाम सपदि हरिवरस्ततो हनूमान् प्रतिवचनम् जनकेश्वरात्मजायाः कथितमकथयद्यथा क्रमेण त्रिदश वर प्रतिमाय राघवाय इत्यार्षे श्रीमद् आदिकाव्ये युद्धकाण्डे त्रयोदशाधिकशततमः सर्गः